षष्ठोऽध्यायः सौतिरुवाच अग्नेरथवचः श्रुत्वा तद्रक्षः प्रजहारताम् ब्रह्मन् वराहरूपेण मनोमारुतरंहसा ततः निवसन् कुक्षौ भृगुकुलोऽद्वः रोषान्मातुश्चितः कुक्षेश्च्यवनस्ते न सोऽभवत् तम् दृष्ट्वा मातुरुदराच्युतमादित्यवर्चसम् तद्रक्षो भस्मसाद्भूतं। पपातपरिमुच्यताम् सा तमादाय शुश्रोणी ससारभृगुनन्दनम् भार्गवं पुत्रं। पुत्रम् पुलोमा दुःखमूर्च्छिता ताम् ददर्श स्वयम् ब्रह्मा सर्वलोकपितामहः रुदतीम् वाष्पूर्णाक्षीम् भृगोर्भार्यामनिन्दिताम् सान्त्वयामास भगवान् वधूम् ब्रह्मा अश्रुबिन्दूद्भवातस्याः अश्रुबिन्दूद्भवा तस्याः प्रावर्ततमहानदी आवर्तन्ती श्रुतिम् तस्या भृगोः पत्न्यास्तपस्विनः तस्या दृष्ट्वा तु सरितम् तदा नाम तस्यास्तदा नद्याश्चक्रे वधूसरेति भगवाँश्च्यवनस्याश्रमम् प्रति स एव च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् तम् ददर्श पिता तत्र च्यवनम् ताम् च भामिनीम् स ततो भार्याम् पप्रच्छः कुपितो भृगुः भृगुरुवाच केनासि रक्षसे तस्मै कथिता त्वम् जिहीर्षते न हि त्वाम् चारुहासिनीम तद्रक्षो मद्भार्याम् चारुहासिनीम् तत्त्वमाख्याहितम् ह्यद्य शप्तुमिच्छाम्यहम् नृषा बिभेति को न शापान्मे कस्य चायम् व्यतिक्रमः अग्निना भगवंस्तस्मै निवेदिता ततो मामनयद्रक्षः क्रोशन्तीम् कुररीमिव साहं तव तेजसा परिमोक्षिता भस्मीभूतम् च तद्रक्षो मामुत्सृज्य पपात वै सौतिरुवाच इति श्रुत्वा पुलो माया भृगुः परममन्युमान् शशापाग्निमतिक्रुद्धः सर्वभक्षो भविष्यसि इतिमहाते आदिपर्व पौलोम पर्व अग्निशापे षोध्याय